आर्य्रतश्च पांचा न सराजाधन प्रिय न स्यक्ष्यति कौंतेया राज्युव यथा से पुत्रो गुणवानुरक्त तस्मान्नोपायसाध्यां स्तानहं मन्ये कथञ्चन इदं त्वद्यक्षमं कर्तुम् अस्माकं पुरुषर्षभा यावन्न कृतमूलास्ते पाण्डवे या विशाम्पते तावत्प्रहरणीयास्ते तत् तुभ्यं तात रोचताम् अस्मत्पक्षो महान् यावत् तेषां क्रियता वाहनानि प्रभूतानि मित्राणि च च यावन्न तेषां गान्धारे तावद्विक्रमपार्थिव यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः सः पुत्रैर्महावीर्यैस्तावद्विक्रमपार्थिवा यावन्नायाति वार्ष्णेयः कर्षन् यादववाहिनी राज्यार्थे पाण्डवे्यसदनं प्रति वसूनि विविधान् भोगान् राज्यमेव च केवलम् न त्याज्यमस्ति कृष्णस्य पाण्डवार्थे कथञ्चन विक्रमेण महीप्राप्ता भरतेन महात्मना विक्रमेण च लोकां स्त्रीं जितवान् विक्रमं च प्रशंसन्ती क्षत्रियस्य विशाम्पते स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभा ते बलेन वयं राजन् महता चतुरङ्गिणा प्रमथ्यद्रुपदं शीघ्रम् आनयामेह पाण्डवान् न हि सन्नानदानेन न भेदेन च पाण्डवाः शक्या साधयितुं तस्मात् विक्रमेणैव तञ्जहि